ध्यायामोधवतीकविलोकी न्यार भगवती ृतवशी मधुरम् अनन्दात्मिकाम् ॐ स्वाणपति ले कविं कविचन्द्र ब्रह्म पदं श्रीमा गणपतये नमः प्रणोति अजरी मा श्रीरामय so we studied the first two paragraphs of vishnu suktam let's just stand that once together and then we individually practice that and then we go um for the other ones okay ready okay okay 1 2 3 ॐ विष्णोर्नुकम् वीर्याणि कुभुवचं यः पात्रिवाणी मैरे मे प्रजातु अत्र पायदुत्तरी विचक्रमाणत्रेकाय विष्णोरराष्टमस्ति विष्णोष्टमसि विष्णोष्णप्रे वै विष्णो वैरसि विष्णो वैष्णवमसि विष्णवे त्वा पातो अश्याम् यत्र यवो मदन्ति बन्धुरता विष्णो नोटिल्य Okay, that's all we did. Okay, fine. So, uh, I thought we did the first paragraph. Okay, no problem. So, who wants to try it on their own? It was okay for everybody, right? Everybody remembered. We, we tried it last time as well, so... Who yeah. wants to try it on their own? We can go. Okay, go ahead. Om Vishnur Nukam Vedhyani Pras. प्रवोचं यः पार्थिवाणि विममे रजागुंसि यो अस्कथायदुत्तरगुंसदस्तम् त्रिचक्रमाणस्त्रे धोरुगायो विष्णो रराटमसि विष्णो औः पृष्ठमसि विष्णोश्नप्त्रे एस्थो विष्णु विष्णो ओर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा तदस्य प्रियमभिपाथो अस्याम् नरो यत्र देवयवो मदन्ते उरुक्रमस्य स हि बन्धुरित्था विष्णो ओः पदे परमे मत्व उत्सहा ो अस्कभाय दुत्तरगुं सदस्तं विचक्रमाण त्रेदोरुगायो विष्णोरराटमसि विष्णो ओः पृष्टमसि विष्णोः स्नप्त्रे विष्णो एस्तो विष्णो स्यूरसि विष्णो ओर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा तदस्य प्रियमभिपातो अश्याम् नरो यत्र देव उरु, उरु क्रमस्त्य, उरु क्रमस्त्य Very good, nice. You. The only one thing हि बन्धुरिता विष्णो is double... prishtam asi vishno snatrestu that vishno ho is only a one okay runs vishno oh snatrestu okay. is not there is okay. vishno snatrestu okay okay so all not all vishnus have double okay i think uh, that one is an exception most of the other places okay. it's there okay just okay. Uh, pay attention that's all okay good okay. very nice okay. Okay. can i go to the next yes please विष्णोर्नुगं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजा पुंसियो अस्कभायादुत्तरगुंसधसं दिग्जक्रमाणत्रे धोरुगायो विष्णो रदाडमसि विष्णो प्रष्टमसि विष्णु स्नप्रे ो विष्णो च्यूरसि विष्णो रुद्रुवमसि वैष्णवमसि विष्णवे त्वा सदस्य प्रियमभिपाधो अस्याम नरो यत्र देवयवो मदन्ती उरुक्रमस्य स हि बन्धुरिद्धा विष्णोपदे परमे मध्व उत्सः ऐ केन् गो नेक्स्ट् हरि ॐ विष्णोर्नुगम् वीर्याणि प्रवोचम्य पार्थिवानि इममे रजागंसि यो अस्कबायदुत्तरगम् सदस्तम् विचक्रमाणस्त्रे दोरुगायो विष्णोरडाडमसि विष्णो पृष्टमसि विष्णोस्नस्तो विष्णोरसि विष्णोर्ध्रुवमसि विष्णो विष्णो वैष्णवमसि विष्णवे त्वा तदस्य प्रियमभि पादो अश्याम् नरो यत्र देवयवो मदन्ती उरुक्रमस्य स हि बधुरिता साके भान्थुरिथा बन्धुरित्वा विष्णुः दीपरं परमेत् उत्साह एथ करेक्टली रिटन राइट देयर व्हाटएवर आई एम सेइंग इज व्हाट यू आर सेइंग ऑन योर ऑन योर पेज यस देन रीड नाइसली ओके Sometimes uh, there, is, there are printing errors or something from places, so that's why. Who is next? Okay, uh, uh, go, Okay, okay, yeah. Bhiraj, go Okay. Raj, okay. ahead. Om Vishnu नुकं वीर्याणि प्रवोचं यार्थिवानि इममे रजागं सियोय दत्तुरगं स रगुं सधस्तम् अस्कभाय दुत्तरगुं सधस्थं विचक्रमाणस्त्रेधोरुगायो विष्णोरराटमसि विष्णो ओ स्पृष्टमसि विष्णोष्णप्रे स्थो विष्णोस्थो स्नप्त्रे स्थो विष्णोस्योरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति गुरुक्रमस्य स हि बन्धुरिस्था विष्णोत्सहाङ्ग् एल् Uh, I'm reading the Malayalam question. Okay. Now that's not a problem. It's correct there also, right? Yeah, I think only a correction was, I think, here it is written, Raja Kamsi instead of no, Raja Kamsi. Raja Kamsi, not Raja Kamsi, Raja Kamsi, okay? Yeah, that's right. Okay. Malayalam is written like that. I can go next. Can okay, you? go ahead. ॐ विष्णोर्नुकम् वीर्याणि प्रवोचं यः पार्थिवानि विममे विममेरजागं फियो अस्कभायदुत्तरगं सधस्तं विचक्रमाणस्त्रेधोरुगायो विष्णो लराडमसि विष्णो ओ पृष्टमसि विष्णो विष्णो स्यूरसि विष्णो ओर्ध्वमसि वैष्णवमसि तदस्य प्रियमभिपातु न श्याम् नरो यत्र देवयवो मदन्ति उरुक्रमस्य स हि बन्धुरित्वा बन्धुरित्वा विष्णो परमे मध्य मध्य उदस्थः उत्सः मद्व उत्सः उत्थः ओके उत्सः इज इट करेक्टली रिटन देयर और दे हैव रिटन समथिंग एल्स इट्स इट्स दे पुट था एंड सा अंडर दैट या उत्सः उत्सः या य य विष्णी वीर्याय प्रदत विष्णुस्तवते वीर्याय वृष्णुस्तवते वीर्याय ीर्याय विष्णुस्तवते वीर्याय विष्णुस्तवते वीर्याय मृगो न भीम कुजरोगिरिष्ठाः मृगो गो भीम कुजरोगिरिष्ठाः भृगवनृगोणीजरोगिरिष्टाः मृगो भीम कुचरो गिरिष्ठा विसर्गे ककार बिकम् इेषन् इस् एल् जिह्वामुलिया बिकम् इस् लैक् सौण्ड् फ्रोम् त्रोट् ओके गो न भीमः कुचरो गिरिष्ठाः ृ भीमः यस्यो ऋषु त्रिषु विक्रमणेषु अधिक्ष्यन्ति भुवनानि विश्वा अधि दीक्ष्यन्ति भुवनानि विश्वा विश्वा अधिक्षिन्ति भुवनानि विश्वाः क्षीयन्ति अधिक्षियन्ति नो क्षियन्ति काक्षा क्ष्यन्ति अधिक्ष्यन्ति भुवनानि विश्वा विश्वाधिक्षिन्ति भुवनानि विश्वानि विश्वा ओकेण्ड् इस् ओके परो मात्रावृधानावृता न ते महित्वमन्वैष्णवन्ति न ते महित्वम् अन्वश्नुवन्ति न ते महित्वम् अन्वश्नुवन्ति महित्वम् अन्वश्नुवन्ति एकं ओके महित्वम् अन्वश्नुवन्ति वन्ते महित्वमन्वश्नुवन्ते नते महित्वमन्वश्नुवन्ते महित्वमन्वश्नुवन्ते कृत्वमन्वश्नुवन्ते मते महित्वमन्वश्नुवन्ते तो ओके ऑल द सेंटेंसेस दे आर ऑल शॉर्ट सेंटेंसेस दैट्स अ गुड पार्ट ओके ओके ्याय मृगो न भीमः कुचरोगिरिष्ठाः यस्यो रुषु त्रिषु विक्रमणेषु अभिक्षियन्ति भुवनानि विश्वा परो मात्रया तनुवावृधाना न ते महित्वमन्वश्नुवन्ति वीर्यायरोति विष्टा यस्य ऋषुषु प्रतिक्ष्यन्ति भुवानि विश्वा करो मात्रयानुवा वृधान न ते त्वं प्रधि युचाः ऋषु विक्रमणेषु अधिक्ष्यन्ति भुवानि विश्वा परो pranam tanuma hrudanam natye mahiditam manav krishnu devanti devanti okay for everybody anybody having any difficulty anywhere okay. mm -hmm. so okay okay प्रतद्विष्णुस्तव ते वीर्याय मृगो न भीमः कुचरोग्यस्यो ऋषु त्रिषु विक्रमणेषु भुवनानि विश्वा आ, परो मात्रिगुड् नेक्स्ट् ऐ के गो नेक्स्ट् ओके तदवेदीया विष्णुस्तवते देवीर्याय तददिष्टसतवेवीर्याय तवते प्रदद् विष्णुस्तवते तददिष्टसतवेवीर्याय तवते प्रदद विष्णुस्तवते तददिष्टसतवेवीर्याय प्रदवत् प्रददते वीर्याय आ प्रदद् विष्णुः विष्णुः स्तवदे प्रधद् विष्णुस्तवदे वीर्याय विष्णुस्तवदे विष्णु प्रद विष्णुस्तवीर्यायते ओके प्रदधिष्णुस्तवते वीर्याय मृगो न भीमकुचरो गिरिष्ठाः यस्यो रुषु अधिक्षिन्ति भुवनानि विश्वा परो मात्रया तनुवावृदाना न नते महि अन्वष्यन्वश्यम् अन्वश्नुवन्ति ओके गो हेड् वीर्याय रिष्टाः यस्यो ऋषु त्रिषु विक्रमणेषु अधिकुवनानि विश्वाः परो मात्रया नते धनुवा वृथाना न हे न ते महित्वमन्वश्नुवन्ति प्रदद्विष्णुः सवते वीर्याय मृगो न भीमः कुचरो विदिष्टाः यस्यो ऋषु त्रिषु विक्रमणेषु अभिक्षियन्ति भुवनानि विश्वा परो मात्राया तनुवा वृधान न नते महित्वमन्वश्नुवन्ति good only thing is that don't say matraya matraya paromaatraya tanuva vradhana okay good then tell me the app like wait isa ah, paromaatraya alle ha matraya not matraya matraya uh, matraya य <laughs> मृगो न भीमकुचरोगि रुष्टाः यस्यो ऋषु त्रिषु विक् विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा आ परो मात्रया तनुवातृवाण य मृगो न भीमः कुचरोगिरिष्ठा यस्यो रिषु त्रिषु विक्रमणेषु भुवनानि विश्वाः विश्वा परो मात्रया तन् वा वृथाना न ते महित्वमन्वैष्णुवन्ति is it written adikhayanti or adikhriyanti ah uh, here it is written adikhayanti uh, that I, i i yeah i think it's something uh, oh, uh, right? okay, okay. Yeah, in the malayalam it, it is in malayalam adikhriyanti okay adikhriyanti that khaya not khriya okay adikhriyanti okay okay <laughs> let us uh, everybody is done right did i miss anybody okay let us learn the next paragraph ubete vidmarajasi prativya पृथिव्या पृथिव्या पृथिव्या विष्णुदेवत्वम् पृथि पृथिव्या विष्णुदेवत्वं बद्ध विष्णो देवम् उभे उभेते विद्म रजसी पृथिव्या विष्णो उभेते उभे रजसीयते विष्णो देव विष्णो हरिमान उद्मय विद्मानम् उभे उभेते विद्म ओके उभेते विद्म उभे विद्म okay? रजसी पृथिव्या विष्णो देवत्वम् े गजया विष्णो देवत्वं गजया विष्णो देवत्वम् परमस्य वित्ते वित्ते परमस्य वित्ते परम महाप्राण परमस्य वित्से क्षेत्राय विष्णुर्मनुषे दशस्यन् य विष्णुर्मनुषे शक्यम् क्षेत्राय विष्णुर्मनुषे शक्यम् ध्रुवासो अस्य कियोजनासः दुर्वसो अस्य हिरण्ययोोजनाकः दुर्वसोस्य सिरिर्वार्गो अधमकरयो जना दुर्वासः के एक दुर्वासः आपे मिले अत्रिहारी य दुर्वासा दुर्वासः एनी hmm. इत्से okay, <laughs> च क्रमे प्रथिवीमेष एताम् क्षेत्राय विष्णुर्मनुषे दशस्यन् द्रुभासो अस्य ेषणु पर विचक्रे मे पृथिवी मे श्रमे पृथिवीमेश एय विष्णुश्राय विष्णुर्धनुषे तस्मि योजना रजसी पृथिव्या विष्णुदेव त्वाम् विचक्रमे विचे विसीकृतिश एताम् शेताय विष्णुर्मनुषे aso ayobaso asyaki yojana sah the okay for everybody yeah yes yeah. okay shall we practice individually who wants to go first can i try okay sure upete bitmadajasi पृथिव्या विष्णो देवत्वं परमस्य विद्धे विचक्रमे पृथिवी मेषयेतां क्षेत्राय विष्णुर्मनुषे दशश्चन् दुवासो अस्य कीदयो जनात्सु गोनक्सरी उबे विद्वचसि पृथिव्या विष्णो परमस्य उभे विद्म रजसि पृथिव्या उभे देविद्म रजसि पृथिव्या उभे ते विद्म रजसि पृथिव्या विष्णो देवत्वं परमस्यमे पृथिवी श्रुतिवीमेषां क्षेत्राय विष्णुर्मनुषे दशस्यन् धृवासो अस्य कीरयोजनासः गुड् नेक्स्ट् ओके पृथिव्या विष्णो देवत्वं परम चक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुर्मनुष्ये दशस्य जसी पृथिव्या विष्णो देवत्वम् परमस्य वित्ते विचक्रमे पृथिवी नेष एताम् क्षेत्राय विष्णुर्मनुषे दशस्यन् ध्रुवासो अस्य कीरयो जनासः उभे मारजसि पृथिव्या विष्णो देवत्वं परमस्य वित्से विचक्रमे पृथिवीमेष एताम् क्षेत्राय विष्णुर्मनुषे दशस्य कीरयो जनासः विद्मरजसि विद्मरजसि no no no there there yeah. is is is okay okay up yeah an akara ीर्याय मृगो न भीमः यस्यो ऋषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा परोमात्रया मात्रया तनुवावृदान् न ते महित्व न ते महित्वमन्वश्नुवन्ति उभे विष्णो देवत्वम् परमस्य वित्से विचक्रमे पृथिवीमेष एताम् क्षेत्राय विष्णुर्मनुषे दशस्यन् द्रुवासोजना सह मरजसि पृथिव्या विष्णो देवत्वम् परमस्य वित्से विचक्रमे पृथिवीमेष एताम् क्षेत्राय विष्णुर्मनुषे दशस्यन् ध्रुवासो अस्य कीरयो जनासः ओके लेटर्स् लण्ड् दोक्षितिघं सुजनि माचकारि माचकारितिघ सुजनि माचकार ऊरुक्षितिगं सुजनि माचकार जनि माचकारमाचकारिति सुजनि माचकारः पृथिवीमेष एताम् पृथिवीमेष एताीमेष एताम् इन्द्रिर्निदेवः पृथिवीमेष एताम् त्रिदेव त्रिर्देवः पृथिवीमेष एताम् त्रिदेवदेव त्रिदेव पृथिवीमेष एता ऋदेवः पृथिवीमेष एताम् त्रिदेव ऋर्देवः एताम् ओके एनी प्रोब्लम् सोफ़ार् इस् फैन् ओके द्विचक्रमेशसं महित्वा द्विचक्रिचक्रमे चतुर्चसं द्विचक्रमे चतर्चसं चतुर्चसं चतर्चसं महित्वा द्विचक्रमे शतसं ओके विचक्रमे शतर्चसं द्विचक्रमे चतर्चसं महित्वा द्विषक्रमे शतर्चकम् महित्वा प्रविष्णुस्रस्तु प्रवसस्तवीयान विष्णु प्रविष्णुरस्तु विष्णुस्तु तव प्रविष्णुरस्तु प्रविष्णुरस्तु तव सीयान् प्रविष्णुरस्तु तव सवीयान् प्रविष्णुरस्तु स्तव सस्तवीयान् विष्णुरस् तव सिया विष्णुरस्तु तव रस्तु तवस्त दिव्यान देसुक्तम सो डिफरेड यस ओके प्रविष्णुरस्तु प्रविष्णुरस्तु रस्तो तवदा तवियान दिव्यान तवस्त रस्तो तवियान ओके दिस डबल वर्ड्स ऑन द पेज पार्ट ओके तविया ेषविरस्य नामेषुकार ओके स्वेषग् स्वेषग्ह्यस्य तेषगुख्यस्य ेष्येषग् त्वेषग्भ्यस्य सविरस्य नाम नाम गोमाेषरस्य नाम तबीरस्य नामा वेशवे सज्जह्य तविरस्य नामा वेशग्य वेशग्य वेशग्य द्वेशग्य वेशग्य डबल द बार वेशग्यस्य वेशग्य चस्य तविरस्य नामा वेशग्य ेषग् नाम शेषग् त्वेषस्य ेषरस्य नाम हस्य इस् इस्य So, double Gakara will come Gha, okay? Gha, Gha, double Gakara, okay? Uh, okay. But you don't have so to say that Mahaprana is it... le, maha le, Gha, okay? Tveshag, Tveshag, okay. Khyasya, Stavira, Khyasya, Nama. So, after Tveshag, is there a Ya kind of a sound? Is it Tveshag, Khyasya, or Tveshag? Tveshag, Khyasya, Khyasya. <laughs> Tveshag, Khyasya. Tveshag, Khyasya. स्य हायन्यामीत्यस्य वेषभ्यस्य नाम द्वेषभ्य ेष <PUES> लास्ट् सेकेण्ड् हाफ् लेट् लोर् ऊरुक्षिदिघं सुजनिमाचकारः पृथिवीमेष एतां विचक्रमे च प्रविष्णुरस्तु तव सस्तवीयान् त्वेषघ्यस्य स्थविरस्य नाम स्य नाम ेषुतवीया विश्व server the the name like egg double egg. g wg egg <laughs> three egg three egg three check here you did you know man jaga there three eggs three eggs three eggs egg okay we're going over egg breakfast time, time. <laughs> okay for everybody any yeah. questions okay okay who wants to try it and there are आई कॅन अटेम्प्टेड ओके लेट डू वन थिंग वी लेट रिपीट इट वन्स ओके देन वी कैन ट्राई इंडिविजुअली ओके रेडी ओके 1 2 3 4 रुक्षिदगुं सुजनिमाचकार सुजनिमाचकार देवकृती देवकृती एतां विचक्रमेष चक्रसंमतत्वं na hetwa vishnu ras sutam annutata vitana tu darasa sreya khyastaviraya kesha kyesh okay who wants to try it on their own i can no okay go ahead सुजनिमाचकारिर्देवः पृथिवीमेष एताम् विचक्रमे शतरचसं महित्वा no, शतर्चसं शतर्चसं शतर् विचक्र शतर् विचक्रमे शतर्चित्वा विचक्रमे शतर्चित्वा प्रविष्णुरस्तु तव सस्तवीयान् त्वे शस्य स्थविरस्य नाम वेरि गुड्गु नी ओके रुक्षितिगम् सुजनिमाचकारा त्रिर्देवपृथिवीमेष एताम् विचक्रमेषदर्च सं महित्वा प्रविष्णुरस्तु तवसस्तीवसस्तवीयान् त्वेषह्यस्य स्तविरस्य नामा ओरुक्षितिगुंसुजनिमाचकारीमेष एताम् विचक्रमेशतर्श्च संमहित्वा प्रविष्णुरस्तु तव त्वेष्यस्य स्तविरस्य नाम कृतेवृथीश एतां विचक्रमे चतर्च संमहित्वा प्रविष्णुरस्तु तव तव वस्तवीयान् प्रविष्णुरस्तु तव taviyan teshat right. is that right correct teshakhyahsya tavistavirasya nama do you want to try next can i go okay okay sure urukshidigam sujanimatchakara ेष We want to go go next? I try, Okay. Okay. Okay. Okay. first? ीमेषणुरस्तु तव ेषुड् ओके सर्वाज् ओके ऊरो ऊरो क्षि ृजनीमाचकारीमेष एतां विचक्र मे शतर् शतर्चतर्चसं महित्वा विष्णो विष्णुरस्तु तव विष्णुरस्वि प्रविष्णु उपप्रविष्णु रस्तु तव सस्तवियान पेशग् द्वेशगस्य स्तवि प्रसस्य नामा गुड ओके इट इज बिडियास टू टू व्हाट इट्स संस्कृत इट इज वेरी हार्ड टू रीड यू गॉट यूज्ड टू इट नो इट्स नॉट दैट डिफिकल्ट वन्स यू गेट टू द थिंग इट्स same way as reading english e g g how do we say right mm -hmm. double g coming yeah okay so let us read uh, do once together uh, this ubay david martil that the whole paragraph ubay david martil the very same once together we will say and then next class we can practice that and then go forward okay okay ready Okay. Okay, Maybe, we we'll do it two two, so we'll have that practice today. Okay? one, स्टार्टिङ्ग् विभेते टुडेल् सो विस् ओके वन् टु त्री चक्रमेकृष् एता क्रेत्राय श्रय विष्णुषे तृवासो अस्य स्थिरयो जनासु श्रीष्मान् भुजनासकार ेवस्य नाम ओके वन् मोर् टै वन् टु त्री उभेते रजसीकृत्वम् परम परमये विशीलीता क्षेत्रायत्राय विश्वमनुषेतशक्त्यन्द्रुवासो अरुवासो अस्य शरीरयो जनासः नाताक्रप महिता विष्णु विष्णु तव कविकस्य नाम सर् ओके इसि अप् दृष्ट yeah it's yeah, better yeah. <laughs> okay so we will uh, stop here and as i said earlier at the beginning of the class we will take a two week break that is the last saturday of december and the first saturday of uh, january which is probably 20 uh, what did you say 27th and january 3rd huh? something like that whatever was uh, yes, sorry 27th first, uh, and 4th last monday of december and, and first saturday of january january uh, fourth uh, and uh, december 20 28 8 28 yeah some yeah. six okay any questions okay so uh, a third of, uh, monday of this month which is december 21st we'll uh, uh, practice rudram and chamakam so hopefully we'll try to finish this uh, next week so that essentially that we'll have a logical break as well so all um, oh, okay the tumor paragraph okay. we'll try to finish it next week and then uh, um, then after the new year we'll practice this again okay okay let's conclude tri lokha samastha ओ लोकाः समस्ताः भक्खिनो भवन्तु लोकाः समस्ताः भक्खिनो भवन्तु लोकाः समस्ताः भक्खिनो भवन्तु शान् शान्तिः तेहि श्रीगुरवे श्रीगुरुभ्यः नमः ओहि